श्री अरुणाचल पञ्चरत्नानुवादिश्लोकाः पञ्चचामरम् कृपासुदाम्बुधैरुणाचलप्रबोधभास्कर स्वचित्स्वरूपतेजसा निकीर्णसर्वलोक हृदम्बुजान्तकोषकप्रफुल्लताविधायिनीम् प्रभाम् निजाम् प्रसार्थभोत्तमो विनाशयान्तरम् उदेति वर्तते प्रलीयतेऽखिलम् जगच्चलम् त्वयि प्रकाशवत्पटे यथैव चित्रसन्ततिः अहन्तयात्मरूपतोऽमि तृत्यसे स्वयम् हृदि वदन्त्यतो हृदाख्यकम् भवन्तमेककम् परम् उदेत्यहङ्कुतः स एष इत्यतीव शुद्धया धिया हृदि प्रविष्टया विमृग्य तत्त्वमात्मनः अवैति चैत्युदात्मकम् भवन्तमात्मरूपतो न दीव सङ्गताम् बुधिम् प्रशान्तिमेति धीः विहाय बाह्यवस्तुवायुरोदनान्मनोहटान् निरुद्ययोगगस्मरन् भवन्तमेव सर्वदा महिम् निलीनधीः प्रभेक्षणेन मोदते भृशम् अथोत्तितः स वासनेन चैतसा तु संसरेत् त्वदर्पितेन चेतसानुरक्तसमानसत्स्त्वयि तदा किलम जगत्समीक्ष्य सर्वदा अन्य भक्ति गजंसुख निमग्नधीर्जयसौ समो हि योगिषु यही लक्ष्मणशर्मा अदक